नारदपुराणं पूर्वार्धम् अध्यायम् एय्टीन् नैन् सनत्कुमार उवाच अथा सामावृधिस्तानां शक्तीनां समयेन च नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरःसरम् नाधानवप्रकाशाद्याः सुभगान्ताः प्रकीर्तिताः भूम्यादीनि शिवान्तानि विद्धि तत्वानि नारद गुरुजन्मादिपर्वाणि दर्शान्तापि च सप्त च एतानि प्राह मनोवृत्या चिन्तयेत् साधकोत्तमः गुरुस्तोत्रं जपे चापि तत् गते नान्तरात्मना नमस्ते गुरु भगवन् शिवाय गुरुरूपिणे विद्यावतारसंसिद्ध्यै स्वौ कृतनेकविग्रह नवाय नवरूपाय धानवे चिद्धनायते। स्वतन्त्राय दयाप्रोक्तविग्रहाय शिवात्मने परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे विवेकिनां विवेकाय विमर्शाय विमर्षिणां प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे पुरस्तात् पुरस्तात्पार्श्वयोः पृष्ठे नमकुर्या मुपर्यधः सदा मञ्चित्तसदने विधेहि भवदासनं युधि स्तुत्वा गुरुं भक्र्या परां देवीं विचिन्तयेद गणेशग्रहनक्षत्रयोगिनी राशिरूपिणी देवीं मन्द्रमयीं नौमि मातृका पीठरूपिणीं प्रणमामि महादेवीं मातृकां परमेश्वरीं कालहृल्लो लो लोहकलानाशनकारिणीं यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः रवि न्दर्पैः शङ्करानलविष्णुभिः यदक्षरशिज्ञोऽस्नामण्डितं भुवनत्रयं वन्दे सर्वेश्वरीं देवीं महाश्री सिद्धमातृकां यदक्षरमहासूत्रप्रोदमेदज्जगत्त्रयं ब्रह्याण्डादिकण्डाहान्तं तां वन्दे सिद्धमादृकां यदेकादशमाधारं बीजं कोणत्रयोद्भवं ब्रह्याण्डादिकडाहान्तं जगदद्यापि दृश्यते अकचादिडतोन्नद्ध पयशाक्षरवर्हिणीं ज्येष्ठाङ्ग बाहु हृत्कण्डकडिपादनिवासिनीं नौमि कराक्षरोद्धारां सारात्सारां परात्परां प्रणमामि महादेवीं परमानन्दरूपिणीम् अथापि यस्या जानन्ति न देवताः केयं कस्मात् क्व सरूपारूपभावनां वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीं देवीं कुलकल्लोलल्लोल प्रोल्लसन्दीं शिवां वर्गानुक्रमयोगेन यस्याख्यो माष्टकं स्थितं वन्दे तामष्टवर्गोद्धमहासिद्ध्यादिकेश्वरीम् कामपूर्णजकाराख्य सुपीठान्तर्निवासिनीं चतुराज्ञाकोशभूतां नौमि श्रीदि पुरामहम् ये दत्तोत्रम् तु नित्यानां यः पठेत् सुसमाहितः पूजादौ तस्य सर्वादा वरदास्युर्न संशयः अधदे कवचं देव्या वक्ष्ये नवरतात्मकां येन देवासुरनरजयि स्यात् साधकः सदा सर्वदा सर्वद सर्वदात्मानं ललिता पादु सर्वदा कामेशी पुरदः पादु भगमालीत्वनन्तरं दिशं पादु तथा दक्षपार्श्वं मे पादु सर्वदा नित्यक्लिन्नाधं भेरुण्डादिशं मे पादौ कौनापीं तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी महावज्रेश्वरि नित्या वायव्ये मां सदा वदु वामपार्श्वं सदा पादु इति मे ललिता तदह माहेश्वरी दिशं पादु सिद्धिदायिनी पादो मामूर्ध्वद शश्च दैवताकुलसुन्दरी अधो नीलपदा काख्या विजया सर्वतश्च मां करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला देहेन्द्रियमनप्राणाञ्ज्वाला मालिनि विग्रहा पालयत्वनिशं चित्ता चित्तं मे सर्वदा वदु कामात्क्रोधात् तदा लोभान्मोहान्मानान्मदादपि पापान् मां सर्वतः शोकात् संक्षयात् सर्वतः सदा असत्यात् क्रूरचिन्तातो किं सातश्चौरतस्तथा तै नित्याश्च सदा पान्तु प्रेरयन्त्यशुभं प्रदि नित्या षोडश मां पान्तु गजारूढास्वशकृभिः तथा हयसमारूढाः पान्तु मां सर्वदस्सदा सिंहारूढस्तदा पान्तु पान्तु ऋक्षगदा अपि रथारूढाश्च मां पान्तु सर्वदस्सर्वदारणे पार्क्ष्यारूढाश्च माम् पान्तु तथा व्योम तदाश्च ताः भूदगा सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा भुदप्रेदपिशाचाश्च परकृत्यादिकान् गतान् द्रायन्तु स्वशक्तीनां भूषणैरायुधैर्मम गजाश्वद्वीपि पञ्चास्य तार्क्ष्यारूढाखिलायुधाः असङ्ख्याशक्तयो देव्यः पान्दु मां सर्वदा सदा सायं प्रादर्जपन्नित्या कवचं सर्वरक्षकं कदाचिन्ना शुभं पश्येत् सर्वदानन्दमास्थितः इत्येतत् कवचं प्रोक्तं ललितायाशुभावहम् यस्य शं निर्भयो विजयी सुखी मदनाम्नां सहस्रं ते वक्ष्ये सावरणार्चनं षोडशानामपि मुने स्वस्वक्रमगदात्मकं ललिता चापि वा कामेश्वरी च भगमालिनी नित्यक्लिन्ना च कीर्तिदा वह्निवासिनी वज्रेश्वरी तथा दूदी त्वरिता कुलसुन्दरी नित्या संवित्तथा नीलपताका विजयाह्वया सर्वमङ्गलिका चापि ज्वालामालिनी संज्ञिता चित्रा चेतिक्रमा नित्या षोडश पीष्ठविग्रहाः कुरुकुल्ला च वाराही द्वे येते चेष्टविग्रहे वशिनी चापि कामेशी मोहिनी विमलारुणा तपिनी च तथा सर्वेश्वरी चाप्यथ कौलिनी मुद्राणं तनुरीश्वर्णरूपा चापार्णविग्रहा पार्श्ववर्णशरीरा चाकुर्वर्ण सुवपुधरा त्रिखण्डास्तापनी सन्निरोधनी चावगुण्डनी सन्निधानेषु चापाख्या तथा पाशाङ्कुशाभिधा नामस्कृतिस्तथा संक्षोभणी विद्रावणी तथा आकर्षणी च विख्याता तथैव वेशकारिणी उन्मादिनी महाभूर्वाकुशाधोकेजरीमदा बीजाशक्वना चूल सूक्ष्म अणिमा लिखिमा च महिमा गरीम तथा प्राप्ति प्रकामिता चा चेषिता वशिता तथा भुक्ति सिद्धिस्तर्ति ब्राह्मी महेश्वरी चौम वैष्णवी तथा वाराहीन्द्राणि च मुण्डा महालक्ष्मीस्वरूपिणि कामा बुद्धिरहङ्कारशब्दस्पर्शस्वरूपिणी रूपरूपा रसाह्वा जगन्धवित्तधृदिस्तथा नाभबीजा मृदाख्या ज स्मृतिदेहात्मरूपिणी कुसुमा मेखला चापि मदना मदनाधुरा रेखासंवेगिनी चैव शङ्कुश्यामालिनीति च संक्षोभिणि तद्धा विद्राविन्याकर्षणरूपिणि आह्लादिनीति च प्रोक्ता तथा सम्मोहिनीति च स्तम्भिनी जम्भिनी चैव वशङ्कर्यधरञ्जिनी उन्मादिनी तथैव साधिनिधिप्रकीर्तिदा सम्पत्तिपूर्णा सा मन्द्रमयी द्वन्द्वक्षयङ्करी सिद्धिः सप्तप्रदा चैव प्रियमङ्गलकारिणि कामप्रदा निगदिदा तदा दुःखविमोचिनी मृत्युप्रशमनी चैव तथा विघ्ननिवारिणि अङ्ग सुन्दरिका तथा सौभाग्यदायिनी ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च पञ्चमी विन्ध्यवासनकाकोरस्वरूपापहारिणी तथानन्दमयी रक्षा रूपेप्सितफलप्रदा जयिनी विमलाचाधकामेशी वज्रिणी भगा त्रैलोक्यमोहनास्थाना सर्वासा परिपूरणी सर्वसंक्षोभणगता सौभाग्यप्रदसंस्थिता सर्वार्थसाधकागारा सर्वरोगहरा स्थिता सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता सर्वानन्दमयाधारबिन्दुस्थानशिवात्मिका प्रकृष्टा च तथा गुप्ताज्ञेया गुप्ततरापि च सम्प्रदायस्वरूपा च कुलकौलनिगर्भग रहस्य परा परप्राकृतदैवादिरहस्य का त्रिपुरा त्रिपुरेशी च तथैव श्रीमालिनी च सिद्धान्ता महात्रिपुरसुन्दरी नवरत्नमयद्वीपनवखण्डविराजिता कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चक कलमुद्रा मातृकाख्यारत्नदेशोपदेशिका तत्त्वाग्रहगाभिधा मूर्तिस्तथैव विषयद्विभा दशकलाकार शब्द संगीत योगिनी समस्तगुप्त प्रकट सिद्धयोगिनी चक्रयुग वह सूरेन्दुभूता तथाक्षराहया पंच धारा स्वूप जनानाव्रत सया निषिद्धाचाररहितासिद्धचिह्नस्वरूपिणि चतुर्धा कूर्मभागस्था दमनादि दमनादिसमभ्यर्चा षट्कर्मसिद्धिदायिनी तिथि वारपृथग्द्रव्यसमर्चनशुभाव वायोश्यनङ्गकुसुमा तथवानङ्गमेखला अनङ्ग मदनानङ्ग मदनाधुरसाह्वया मददेगिनी का चैव तथा भुवनपालिनी शशिलेखा समुद्दिष्टा गदिलेखाह्वया मदा श्रद्धा प्रीतिरधिश्चैव धृदिक् कान्तिर्मनोरमा मनोपरा समाख्यादा तथैव हि मनोरथा मदनोन्मादिनी चैव मोदिनीशिखिनी तथा शोषिणी चैव शृङ्गारी सिञ्चिनी सुभगा तथा पुषा चेद्वास् सुमनसा रप्रीधिर्हृदिस्तथा हृद्धिसौम्या मरीचिश्च तथैव ह्यंशुमालिनी शशिनी चाङ्गिरा चाया तथा सम्पूर्णमण्डला मृदा तुष्टिस्था मृदाख्यागिनी साध स्वरूपाच दुर्गा क्षेत्रेश रूप कामराजस्वू तथा मू चैव चा मकरकेदना मनोभवस्वरूपा च भारतीवर्णरूपिणी मदन मोहिनी लीला जम्भिनी चोद्यमा शुभ ह्रादिनी द्राविणी प्रीति रदिरक्ता मनोरमां सर्वोन्मादा सर्वमुखाख्यभङ्गा चामिदोद्यमा अनल्पा व्यक्तविभव विविधाक्षोभविग्रहा रागशक्तिर्द्वेषशक्तिस्तथा शब्दादिरूपिणी नित्या निरञ्जना क्लिन्ना क्लेदेनी मदनातुरा मदद्रवा द्राविणी च द्रविणी चैतिकीर्तिता मदा च मन्मधानी मनस्विनी मोहामोदामानमयी मायामन्दामिदावधि विजया विमला चैव शुभाविश्वा तथैव च विभूदिर्विनदा चैव विविधा विनदाक्रमाद कमला कामिनी चैव किरादा कीर्तिरूपिणी कुट्टिनी च समुद्दिष्टा तथैव कुलसुन्दरी कल्याणी कालकोला शाकिनी तथा लाकिनी काकिनी चैव राकिनी काकिनी तथा इच्छा ज्ञानाक्रियाख्या चाप्यायुधाष्टकधारिणी कपर्दिनी समुद्दिष्टा तथैव कुलसुन्दरी ज्वालिनी विस्फुलिङ्का च मङ्गला सुमनोहरा कनकाकिनवा विद्याविधा च प्रकीर्तिता मेषा विषह्वया चैव मिथुना कर्कडा तथा सिंहाकन्या तुला कीडा तथा कुम्भामीना सर्वभक्षात् तथैव विश्वात्मा विविधोद्भूतचित्ररूपा जकीर्तिता निःसपत्ना निरातङ्गा याचना चिन्त्य वैभवा रक्ता चैव ततः प्रोक्ता विद्याप्राप्तिस्वरूपिणी हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा निपन्दना राघवती तथैव मदनावती मेखला चैव प्रकीर्तिता कमलाकामिनी कल्पा कला च तथा कला कौशिका का तथा कम्बुवादनिका चैव कादराकपटा का तथा कीर्तिकुम चुंकुमति भंजिनी वेगिनी नागा चपला पेश सती रिश्रद्धा भोगलोला मदोन्मत्ता मनस्विनी विख्वलाकर्षिणी लोला तथा मदनमालिनी विनोदा कौतुका पुण्या पुराणा परिकीर्तिता वागीशीवरदा विश्वा विभवा विघ्नकारिणी बीजविघ्नहराविद्या सुमुखी सुन्दरी तथा साराजसुमना चैव तदा प्रोक्ता सरस्वती समया सर्वगाविद्धा शिवा वाणी च कीर्तिता दूरसिद्धा तथा प्रोक्ताधो विग्रहवदी मदा नादामनोन्मनि प्राणप्रदिष्ठारुणवैभवात् प्राणपानसमाना च व्यानोदाना च कीर्तिदा नागा कोर्माद कृकला देवदत्ता धनञ्जया फत्कारी किङ्कराराध्या जया च विजया तथा हुङ्कारी केडचरी चण्डा छेदिनी क्षपिणी तथा स्त्रीहुङ्कारी क्षमकारी चतुरक्षररूपिणी श्रीविद्यामदवर्णाङ्गी कालीयाम्या नृपार्णका भाषा सरस्वती वाणी संस्कृता परा बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका त्रयाख्या परमात्माख्याप्यमेयविभवा तथा वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा तथा त्रैपुरकन्दाख्या ज्ञात्रादित्रिविधात्मिका आयुलक्ष्मी कीर्तिभोग सौन्दर्यारोग्यदायिका ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता जैवाख्या विजयाख्या च तथैव विद्यारूपादि हृदादिविद्यारूपादिभानुरूपाः जगदूपुः विश्वमोहनिका चैव त्रिपुरामृतसंज्ञिका सर्वाप्यायनरूपा च मोहिनीक्षोभरणी तथा क्लेदिनी च समाख्याता तथैव च महोदया सम्पत्परीहलक्षार्णा सीमामादृतनूरतिः प्रीतिर्मनोभवा वा प्रोक्ता वाराधिपा तथा त्रिकूडा चापि षट्कूडा पञ्चकूटा विशुद्धग अनाकदा गदा चैव मणिपूरकसंस्थिता स्वाधिष्ठानसमासीना धारस्थाज्ञा समास्थिता षट्त्रिंशत्कूटरूपा च पञ्चाशन्मिथुनात्मिका पादुकादिकसिद्धिशा तथा विजयदायिनी कामरूपप्रदा वेतालरूपा च पिशाचिका विचित्रा विभ्रमा कंसी भीषणी जनरञ्जिका विशालामदनातुष्टा कालकण्ठी महाभया माकेन्द्री शिखिनी चैन्द्री मङ्गला वडवासिनी मेखला सकला मालिनी विश्वनायिका सुलोचना सुशोभा च च विलासिनी कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा प्रमोदारागिणी सिद्धा पत्मिनी च रतिप्रिया कल्याणदा कलादक्षा ततश्च सुरसुन्दरी विभ्रमा वाकवीरविकला कोरका कविः महानादा सुग्रीवा मर्कडा शठा बिडालाक्षा बिडालास्या कुमारी खेजरी भव मयूरा मङ्गला भीमा द्विवाक्त्रा करानना मादङ्गीजनिशाचार वृषग्राह वृकानना शी भाष गज मुख पशुक्ता मृगानना शोभका मणिभद्र जीडका सिंहचक्र का महोदरस्तुशिख विकृत सराननना चपला कुक्कुडास्या पाविनी मदनालसा मनोहरा दीर्घजङ्का स्थूलदन्दा दशानना सुमुखा पण्डिता क्रुद्धा वरा हास्या सडामुखा कपडा कौतुका काला किङ्करा किद वा खला भक्षकाभयदा सिद्धा सर्वगा च प्रकीर्तिता जया जया दुर्गा भद्रा भद्रकरी तथा अम्बिका वामदेवी च महामायास्वरूपिणी विदारिका विश्वमयी विश्वा विश्वविभंजिता वीरा विक्षोभिणी विद्याविनोदा बीजविग्रह वीदशोका विषग्रीवा वी विपुला वी विजयप्रदा विभवा विविधा विप्रा तथैव परिकीर्तिता मनोहरा मङ्गली च मदोत्सिक्ता मा मनस्विनी मानिनी मधुरा माया मोहिनी च तथा स्मृदा भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता कुभा कमलाकल्पा कलाधो पूरणी तथा नित्या चाप्यमृता चैव जीविता च तथा दया अशोकाक्षमलापूर्णा पूर्णा भाग्योद्यता तथा विवेकाविभवविश्वा विदता च प्रकीर्तिता कामिनी शेखरी गर्व पुराणा परमेश्वरी गौरी शिवा शमेया च विमला विजया परा पवित्रा पत्मिनी विद्या विश्वेशी शिववल्लभा अशेषरूपाख्यानन्दाम्बुजाक्षी चाप्यनिन्दिता वरदा संयता च सरस्वती निर्मलानन्दरूपा जक्ष्य मृदा मनिदा तथा उषा चैव तथा पुष्टिस्तुष्टिश्च शशिनी चैद्रिका कान्दिज्योत्स्ना श्रीः प्रीतिरङ्गा पूर्णा पूर्णा मृदा कामदायिनीन्दुकलात्मिका पि निपिनी धूम्रा मरीदेज्वालिनी रुचिः भोगता विश्वाबाधिनी धारिणी क्षमा धूम्रार्चि रूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्रीस्वरूपा कपिला अव्यकव्यवहा तथा कस्मरा विश्वकवला लोलाक्षि लोलजिह्विका सर्वक्षा सहसाक्षी निसंगा चति प्रियाचेतिया चाप्रमेया पूर्ण दुरा सर्वा संसिधि भावनीग तथा याम शे वेदस्विण तथा शेधा भावना सिद्धि कृचिनी वक्निरूपा तथा दस्रा भुजंगमा विघ्ना भुजङ्गमा रविरूपा च माधा दुर्गा दिशा तथा धनदाग्यशवाचाभियमी चैव हरा शस्या अश्विनी वक्निरूपा धात्रेदिकीर्तिदा चन्द्रा शिवादिर्जीवासर्पिणी पितृरूपिणी हर्यम्णा जगा सूर्या त्वाष्ट्रीमारुधिसंज्ञा इन्द्राग्निरूपामित्रा वैश्वदेवी हरिदभुर्वसवी वरुणा जया आशीर्बुध्न्या तथा कारस्करा मला जम्बूका जकदिरा कदिराकृष्णारूपिणी वंशा च पिपला नागारोहिणा च पलशका पक्षका च तधाम्भष्टा बिल्वा चार्जुनरूपिणी विकं च ककुभा सरला चापि सर्जिका वं जुलापनसर्का च शमी निम्बामधुकसंज्ञा चाप्यश्व च चा गजाह्वया नागिनी सर्पिणी चैवा शुनी चापि बिडालिकी चागी मार्जारिकामुषी वृषभा माहिषी तथा चार्दूलिशैरभिव्याघ्री हरिणी च मृगीशुनी कविरूपा च गोखण्ड वानरी च नगा गौर्हस्थिनी गा। चेति तथा षट्चक्रवासिनी त्रिखण्डातीरपादाख्या ब्राह्मणी द्रविणी सोमा सूर्यातिथिर्वारा योगार्क्षा करणात्मिका यक्षिणीतारणा व्योमशब्दाद्या प्राह्मिनी च धीः क्रोधिनी स्तम्भिनी ब्राह्यादिरूपिणी सिंहस्ता व्याघ्रगा चैव गजाश्व गरुडस्थिता भौमाप्या तैजसेवायुरूपिणी नाभसा तथा एका वक्त्रा चतुर्वक्त्रा नवक्त्रा कलानना पञ्चविंशतिवक्त्रा च षड्विंशद्वदना तथा ऊनपञ्चाशदस्या च चतुष्षष्टिमुखा तथा एकाशीतिमुखा चैव शदाननसमन्विता स्थूलरूपा सूक्ष्मरूपा तेजोविग्रहधारिणी वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी तत्त्वावृत्तिस्वरूपापि नित्या वृत्तिवपुर्धरा अङ्गावृत्तिस्वरूपा चाप्यायुधा वृत्तिरूपिणी गुरुपङ्क्तिस्वरूपा च विद्यावृत्तितनुस्तथा ब्रह्माद्यावृत्तिरूपा च परा पश्यति का तथा मध्यमा वैखरी शीर्षकण्ठताल्वोष्ट ददगा जिह्वामूलगदान सदोरस्थलिनी पदवाक्यस्वेदभाषास्वू सेख्याणाख्या चोपदेशख्या चोपदेशाख्या, चकुलाक्षर संकेता गायत्री प्रणवादी का जप होमाचनध्यानयंत्रत यन्द्रतर्पणरूपिणी सिद्धसारस्वता मृत्युञ्जया च त्रिपुरा तथा गारूढा चानपूर्णा चाप्यश्वरूढा नवात्मिका गौरी देवी हृदया लक्षदा च मदङ्गिनी निष्कत्रयपदा चेष्टा वादिनी च प्रकीर्तिता राजलक्ष्मीर्महालक्ष्मीसिद्धलक्ष्मीर्गवानना इत्येवं ललिता देव्या दिव्यं नाम सहस्रकं सर्वार्धसिद्धितं प्रोक्तं चतुर्वर्गफलप्रदं यदनित्यमुषकाले यो जभेच्छुदमानसः स योगी ब्रह्मविज्ञानी शिवयोगी तदात्मविद द्विरावृत्या प्रजापतो ह्यायुरारोग्यसम्पदः लोकानुरञ्जनम् नारी नृपावर्जनकर्म च अपृकृत्वेन सिद्ध्यन्ति साधकस्यास्य निश्चितम् त्रिरावृत्तास्य वैपुंसो विश्वम् भूयाद्वशेखिलं चतुरावृत्तितश्चास्य समीक्षितमनारतं फलत्येवं प्रयोगार्होल्लोकरक्षातरो भवेद पञ्चावृत्या नरा नार्यो नृपा देवाश्च जन्तवः भजन्त्यनं साधकं च देव्यामाखिदचेतसः षडावृत्या तन्मयत्स्यात् साधकश्चास्य सिद्धयः अचिरेणैव देवीनां प्रसादात् सम्भवन्ति च सप्तावृत्यारि रोगादिकृत्या पस्मरनाशनम् अष्टावृत्या नरो भूप निग्रहानुग्रहक्षमः नवावृत्या मन्माधाभो विक्षोभयदि भूतलं दश दशावृत्या पठे नित्यम् वाग्लक्ष्मी कान्तिसिद्धये रुद्रावृत्याखिदर्भिश्च तदा यत्तं जगद्भवेद अर्कावृत्या सिद्धिभिः स्यात् दिग्भिर्मर्त्यो हरोपमः विश्वावृत्याद् विजयी सर्वतः सुखी नरः शक्रावृत्या किलेष्टाप्ति सर्वदो मङ्गलं भवेद तिथ्यावृत्या किला निष्ठा नयन्ताप्नुयान्नरः षोडशा वृत्तितो भूयान्नरसाक्षान्महेश्वरः विश्वं स्रष्टुं पालयितुं संहदु चक्षमो भवेद मण्डलं मा समात्रं वा योऽद्यपेद्यदाशयः तत्तदेवप्नु यात् सत्यं शिवस्य वचनं यथा इत्येतत्कथितं विप्रत्या वृत्यर्चनाश्रितं नाम्नां सहस्रं मनसोभीष्टसम्पादनक्षमम् यदि श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे ललितास्तोत्रकवचसहस्रनामकथनं नामैकोननवतितमोऽध्यायः नाम ओम्